गर्गसंहिता खण्डम् एय्ट् बलभद्रखण्डम् अध्यायम् सेवेन् प्राग्विपाक उवाच अधमधुरायाम् रामकृष्णौ यानि चरित्राणि कृतवन्तौ तानि युवराज युवराजशृणुताद अथकालनेमिसुतेन कंसेन प्रयुक्तो क्रूरो रामकृष्णौ समानेतुं व्रजमण्डलमागतवान् तत्र गन्तुमभ्युद्य नन्दराजसूनुम् वीक्ष्य गोपीगणा विरहाधुरा बभूवुः पृथक् पृथक् साश्वास भगवान्थमा सबलो क्रूरेण यदुपुरी गचन्मागे यमुना जलेशु श्वा फम दर्शायास अथ पूर्वाने मधुरोपव स्थि परे मधुरापुरी ददर्श अदरामकृष्णौ देवौ पुराणौ पुरुषौ लीलया नडवरवेषधरौ दिदृक्षवः पौराश्च पुरन्ध्र्यकर्माणि त्यक्त्वा व्यधावन्नापगा उदधिमिव तौ कोडिकन्दर्पहरम् सौन्दर्यम् स्वम् चेदो हरन्दौ विचेहरतु स्म अधवान् राजमार्गे तत्या चिदवस्त्रा वस्त्राण्य दास्यन्तम् रजगम् रङ्गकारम् कराग्रेण सर्वेषाम् पश्यदम् निर्जगान् तथा वस्त्रवेषम् कुर्वन्ते तदा वस्त्रवेषम् कुर्वदे वायकाय स्वसारूप्यम् प्रदाद तदसैरन्ध्रीम् कुब्जाम् त्रिवक्राम् चन्दनादान मिषेणयार्घीं मिषेणार्जीं त्रिलोकसुन्दरीम् कृत्वा तदो वैश्यजनान् समाभाष्य मधुरार्भकैः सहिदो धनुस्थले विवेश अधहेमचित्रं सप्तताधकं सहस्रश पुरुषैर्नेतुमशक्यं बृहद्भारं चाष्टधातुमयलक्षभारसमं यज्ञं मण्डपधृतं संसाय भार्गवेण दत्तं साक्षाचेषमिव कुण्डलीभूतं कोदण्डं वैष्णवं वीक्ष्य प्र सह्याददे तदैव पश्यतां लोकानां सज्जं कृत्वा लीलया कृष्य पर्णपर्यन्तं दोर्दण्डाभ्यां यथेक्षुदण्डं वेदण्डचुण्डादण्डेन कोदण्डं मध्यदो बभञ्च भज्यमानधनुःषष्टाङ्गारेण सप्त लोकबिलैः सह सर्वम् ब्रह्माण्डम् ननाद पदस्तारा दिग्गजाश्च विचेलुः सर्वम् भूखण्डमण्डलम् स्थालीव खडिगद्वयमात्रम् प्रचकम्बे अदा पराह्ने रङ्गभूमिद्वारिद्वीपम् कुवलया पीडम् समेत्यक्षणम् बाललीलया युद्धं कृत्वा शुण्डादण्डे सङ्गृहीत्वा त्वितस्ततो भ्रमयित्वा बालककमण्डलुमिव भूपृष्ठे तम् आदयामास तमिद्धं निहत्य रङ्गभूमौ कंस सभायां जनदायै यथा भावं दर्शनं दत्वा मल्लयुद्धम् कृत्वा चाणूर मुष्टिकः कूड शलतो शलकान् कंसस्याग्रे सर्वेषाम् पश्यताम् भू पृष्टे रामकृष्णौ पादयामासतुः अध तत्कर्मवीक्ष्य दुर्वचनानि विगधमानस्य कंसस्य मधुसूदनसहसोत्पद्य मञ्जं महोन्नतं समारुरोह तद सत्वरं मृत्युमिवागदं वीक्ष्य मञ्चादुद्धायतं निर्भर्सयन् मना द्रुतं कंस खड्गचर्मणि जगृहे हरित्सहसा चर्मासि संयुक्तम् कंसं सविशं तुण्डविभागाभ्यां विराडिव दोर्दण्डाभ्यां बलात् समग्रगीद अददाक्ष्यतुण्डात् ध्वनिवंसो भुजबन्धात् बलात् विनिर्गत्य पतत् खड्गर्मा पुनरुद्यतो भूत् पुनर्मञ्जे बलिन्नौ वे गान् मर्दयन्तौ शैले सिंहाविव शुशुभाे तदो बलादुत्पदन्तम् कंसम् शतहस्तमम् परे कृष्ण उत्पदन् श्यणम् श्येण इव तम् समग्रहीत पुनर्गच्छन्दम् दैत्यपुङ्गवम् प्रचण्डभुजदण्डाभ्याम् गृहीतत्रैलोक्याधार इतस्तदो भ्रामयित्वा महाम्बरान् मञ्चोपरि पादयामास तदस्तडित् पादाद्रुमखण्ड इव भग्नदण्डो मञ्जो बभूव स वज्राङ्गपतितोऽपि किञ्चिद् व्याकुलसहसोद्धाय महात्मना पुनर्युयुधे पुनस्तम् भुजदण्डाभ्याम् भगवान् गृहीत्वा मञ्जे क्षिप्त्वा हृदयमारुह्य तन्मौलिं गृहीत्वा सद्यः केशेषु गृह्य पादयित्वा शैलाद्गण्डशिलामिव तस्यो परिष्टात् सनातनसर्वाधारो नन्दविप्रमो वेगात् स्वयं निपपाद तयोर्निपातेन निम्नीभूतम् भूखण्डमण्डलम् तालीव दण्डत्रयं सहसा चकम्बे अधः सम्परेदम् भोजराजं भूमिगदं नागेंद्रं मृगेन्द्र इव सर्वेषां पश्यताम् विचकर्ष तदैव भूभुजाम् हाहाकार असीदहो वैरभावेन यम् संसोपि तस्य सारूप्यं इव जगाम तद कं समृदं सह स वीक्ष्य समागतांस्तस्यानुजान् खड्गचर्मधरान् दृष्ट्वा बलभद्रोमुद्गरं नीत्वा सर्वतोऽभिजकान तदा देवदुन्दुभयो नेदुर्जयध्वनिश्चा भूद्देवाः पुष्पैर् ववृषोर्विद्याधर्यो ननृदुर्विद्याधर गन्धर्वखिन्नराजगुः अध सर्वानाश्वास्य विदर विमोक्षोऽग्रसेनाय राज्यम् दत्तोपविधम् प्राज्ञसन्दीपनाद्विद्या अधीत्य तस्मै मृदम् सुदम् दक्षिणाम् दत्त्वा शङ्कम् हत्वा मधुरामेत्य वसन् व्रजशान्त्यै चोद्धवम् प्रेषयित्वा पुनः स्वयम् व्रजम् गत्वा राधायै गोपीभ्यश्च दर्शनम् दत्त्वा रासमध्ये ऋभुमोक्षम् कृत्वा पुनर्मधुरायाम् माधुरेशोरराज रामोऽपि कोलवधम् कृत्वा तस्याम् विरराजेदि तयोर् मधुरायां सहस्रशः पवित्राणि चरित्राणि बभूवुः इति श्रीगर्गसंहितायां बलभद्रखण्डे मधुरालीलावर्णनं नाम सप्तमोऽध्यायः ओ अध्यायम् एय् प्राण्विपाक उवाच अथयुवराज धार्तराष्ट्र तयोर्द्वारकालीला सङ्क्षेपेण शृणुदाद तदकं सस्यपारोख्यम् सौहृदम् कुर्वदम् समागतम् जरा सन्धम् जित्वा द्वारकाख्यम् समुद्रे दुर्गम् निर्माय तत्रै करात्रेण ज्ञादीन् समाधाय मुच कुन्तदृश्या कालम् पुनश्च रामकृष्णौ प्रवर्षणाद्रिमेत्य तस्माद्वारकायाम् जग्मधुः अध ब्रह्मलोकात् समागतो रैवदसुधाम् रत्नयुधाम् विधिवत् बलशालिने बलभद्राय दत्वा तव कर्तुम् बदर्याख्यम् वनम् गदवान। अध श्रीकृष्णशत्रूणाम् पश्यताम् कुण्डिनः जहार तथाजा भवदीं सत्यभामाम् कालिन्दीं मित्रविन्ताम् नाग्नजिजीं भद्रां लक्ष्मणां च भौमं हत्वा षोडश सहस्रं शदं च राजकन्या उवाच राजन्भीष्मकन्यायां रुग्मिण्यां श्रीकृष्णस्य पुत्रप्रथमम् कामदेवावतारपि दृः सम सुन्दर आसीद तस्मादनिरुद्धसुरज्यष्टावतारोऽभूद अधैकदोग्रसेन राजसूयाध्वरे नागवल्लीम् गृहीत्वा दिग्विजयार्कि निर्गदप्रद्युम्नो यादवैर्भ्रादृभिः सह जम्बोद्वीपे नव फण्डविजयं कुर्वन् कामदुःखनदसमीपे वसन्तमालदीपुराधीशेन पदङ्गेन गन्धर्वराजेन युयुधे तत्र गदा युद्धे गदामादाय गदो बलदेवानुजो गदाधरं स्वगदया पदंग पदङ्गतदाड सोपि हृदि चौजसा जघानेद्धं तयोर्गदा युद्धं कटिकाद्वयं बभूव तद पतङ्गगदा प्रहरेण गदो युद्धे क्षणं मूर्छां जगाम तदाहाकारे जादे कोडि मार्दण्डसन्निभो बलभद्र आविर्भूत्वा गन्धर्वाणां सर्वं बलं फलाग्रेण समाकृष्य तदुपरि मुशलताडनं चकार तेन युगपत् सर्वं सैन्यं सभडद्विपरथं चूर्णी बभूव अधः पदङ्कोऽपि विरधो भयभीदस्तस्मात् गत्वा पुनर्योद्धुं यादवै सेनाव्यूहं चकार तच्छ्रुत्वा क्रुद्धो बलभद्रो गन्धर्वाणां महापुरीम् शतयोजनविस्तीर्णां वसन्दमालतीनाम्नीं सर्वां हलेन संविदाय सहसा कामदुःखे नदे सङ्घर्षणो विचकर्ष अथः भावपतितैर्गृह्यैर्हाकारे जादेतिर्यक्पोदमिव घूर्णाम् समस्ताम् नगरीं वीक्ष्य गन्धर्वै गन्धवेश्य पदङ्ककृताञ्जलिर्धर्षितो विश्वकर्मकृतानां विमानानां द्विलक्षं गजानां चतुर्लक्षं चाश्वशदार्बुदम् च दिव्यानां रत्नानां भारं दश शदार्बुदम् च बलिम् नीत्वा बलशालिने बलाय दत्त्वा प्रदक्षिणीकृत्य प्रणनाम अथ तथा साम्बमोक्षार्थम् बलभद्र इहा गतो भवताम् पश्यताम् पुरमिदम् हलाग्रेण संविधार्य श्रीगङ्गाम् साक्षात् सङ्कर्षणो विचकर्ष तथैव नाग कन्याभिर्गोपीभिर्निर्मिदे रासमण्डले कालिन्दीम् अदाग्रेण विचकर्ष अथैकदा द्विविधो नाम वानरः सुग्रीव सचिवो नारदेन प्रेरितो हरिम् योद्धु कामोव करद्रैवदकाचलमित्य बलेन कडिकाचदुष्टयम् च दुष्टयं युयुधे द्रुमदण्डशिलामुष्टिभिर्विनिघ्नन्दं बलभद्रो मुसलेन मूर्ध्निजखान पुनर्नमृदमुष्टिना खादयित्वा पलायन्तं भुजदण्डाभ्यां गृहीत्वा रैवतपाचलपृष्ठे पादयित्वा च्युदाग्रजो दृढेनमुष्टिना मुष्टिना तदाट तदा तत्पदनेन षडङ्गशैलेन्द्रतमण्डलुरिव चकम्बे अधः वावराजन्नद्य भवदा पाण्डवैः सह युद्धोद्यम् मम् श्रुत्वा तीर्थाभिषेकव्याजेन ब्राह्मणैर् नागरै, सहित पुरा द्विनिर्गतो द्वारकां प्रदक्षिणीकृत्य सिद्धाश्रमप्रभासयोस्नात्वा पश्चिमायां दिशि सरस्वती प्रदि श्रोत सैन्धवारण्य जम्भूमार्गोत्पलावर्तार् बुध हेमवन्त सिन्धूनुपस्पृश्य पृथग्बिन्दुसरस्त्री तकूप सुदर्शनात्रि तौशनसाग्नेय वायव सौदासगुहतीर्थश्राद्धदेवादीनि तीर्थानि स्नात्वोत्तरस्याम् दिशि कैलासकरवीर महायोगगणेश कौबेर प्राज्योतिष रङ्गवल्ली सीतारामक्षेत्र चैत्रदेश वसन्ततिलकादशार्णभद्रा कूर्मतीर्थ पुष्पमाला चित्रवनचन्द्र कान्ता नै श्रेय समनुपर्वतचक्षु कामशालिनी काम, काम वन वेदक्षेत्र सीताप्रधुतीर्थ तपो भूमि लीलावती वेद न करगान्धर्वचक्रभीमरधी श्रीजाह्नवी कालिन्दी हरिद्वार कुरुक्षेत्रमधुरा पुष्करेषु स्नत्वा पुनस्तस्माच्छाम् फलं सौकरं प्राप्य जान्यानि कुर्वन् तीर्थानि साक्षात् सङ्घर्षणो नैमिशारण्यम् जगाम तं समागतम् वीक्ष्य शौनकादयो मुनयसमुद्धाय भवन्दिरे चार्चयन् तत्र वेदव्यासशिष्यं रोमकर्षण म प्रत्युधायिनम् वीक्ष्य करस्तेन कुशाग्रणतम् जकानेदि तदा हाहेदि वादिनो मुनिन् वीक्ष्य लोकपावनोऽपि लोकसङ्ग्रहार्थद्वादशमासान् तीर्थस्नानेन विशुद्धये मनो दधे तत्रेल्वल तुसुतो बल्वलो नाम दैत्य उपावृदे पर्वणि पांसु वर्षण प्रचण्डेन वायुन पूयशो निधविन्मुत्र सुरा मांसदुर्गन्धेन समागदके दृष्टो भूद अद ललज्जिह्वं वज्राग्रम् भिन्नकज्जलाञ्चनचय कृष्णम् तप्त ताम्रश्मश्रुभयङ्करम् ब्रह्म शान्तये फलाग्रेण गगनान्मुसलेन मूर्ध्नि बलभद्रस्तम् तदाड तत्ताडनेनाकाश्चात्सोऽपि कमण्डलुरिवव्यसुपपाद अध अधप्रसन्नामुनयो विरामं संस्तुत्या विदधाशिषः प्रयुज्य वि वृत्रघ्नम् विबुधा इवाभ्यषिञ्चन् तैरभ्यनुज्ञातः सरयू कौशिगी मानस सरोवरगण्डके गौतमेषु स्नात्वा योध्या नन्दिग्राम बरुहेष्मदी ब्रह्मावर्तादिन्युपस्पृश्य तीर्थराजम् प्रयागम् जगाम तत्रायुदगजाधानम् चकार तदश्चित्रकूडविन्ध्याचल काशी विपाशा शोणमिथिला गयादिषु स्नात्वा गङ्गा जगाम तत्र सुवर्ण शृङ्गाम्बरसंयुक्तम् पृथक् सुवर्णरत्नभारसहिदम् गवाम् कोडिशदम् ब्राह्मणेभ्य प्रदा को प्रादाद सदक्रमसों दक्षिणस्यां दिशि महेन्द्राद्रि सप्तगोदावरीवेणी पम्बाभीम रथी स्कन्दक्षेत्र श्रीशैलर्वेङ्गडकाञ्ची कावेरी श्रीरङ्गर्षभाद्रि माला ताम्र पर्णिमलया चलकुला चलदक्षिण सिन्धुभाल्गुन पञ्चाप्सरो गोकर्णस्योपारकाबीव योष्णी निर्विन्ध्या दण्डकरेव माहिष्मत्या वन्दिकादीनि तीर्थानि साक्षात् सङ्घर्षण करिष्यति स्म तदस्त्वत्सहायार्थम् विश्वसने चागमिष्यति इदम् बलभद्रचरित्रम् पवित्रम् सर्वपापाभिकारणम् तीर्थयात्रावर्णनम् नितराम्मया वर्णितम् सर्वमङ्गलकारणम् कौरवेन्द्र किम्भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायाम् बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे द्वारकालीलावर्णनम् नामाष्टमोऽध्यायः ओ अध्यायम् नयन् दुर्योधन उवाच मुनिशार्दूलभगवान् बलभद्रो नागकन्याभिर्गोपीभिकदा कालिन्दीकुले विजहार प्राग्विपाक उवाच एकदा द्वारका नगराद्धिता लाङ्गं रथमास्थाय सुरान्दिदृक्षुः परमुत्कण्ठो नन्दराजगोकुल गोगोपालगोपी गो गणसङ्कुलसङ्कर्षण आकदश्चिरोत्कण्डाभ्याम् नन्दराजयशोदाभ्याम् परिष्वक्तो गोपी गोपालगोभिर्मिलित्वा तत्र द्वौ मासौ वासन्दिकौ च वात्सीद अथ च या नागकन्या पूर्वोक्तास्त गोपकन्या भूत्वा बलभद्रप्राप्त्यर्थम् गर्गाचार्याद्बलभद्रपञ्चाङ्गम् गृहीत्वा च नैव सिद्धा गदा कालिंदी यगदाप्रसन्नकालिन्दीकुले रासमण्डलम् समारेभे तदैव चैत्रपूर्णिमायाम् पूर्णचन्द्रोरुणवर्णसम्पूर्णम् वनं रञ्जयन् विरेजे शीतला मन्दयाना कमलमतरन्दरेणुवृन्दसंवृद्धाः सर्वदो वायवः परिव्रुः कलिन्दगिरिनन्दिनी चलल्लहरी बिरानन्ददायिनी पुलिनं विमलं ह्याचिदं चकार तथा च कुञ्ज प्राङ्गणनिगुञ्ज पुञ्जैस्फुरल्लितपल्लवपुष्पराघैर्मयूरकोकिल पुंस्कोकिल कूजिदैर्मधु मधुर्ध्व मधुरध्वनिभिर्व्रजभूमिर्विभ्राजमाना बभूव तत्र क्वणखण्डिकनूपुरस्फुरन्मणिमयकड कडिसूत्र का, केयूरहार नीलाम्बरो विमल कमल पत्राक्षो यक्षिभिर्यक्षराडिव गोभीभिर्गोपराड्रासमण्डले रेजे अथ वरुणप्रेक्षितवरुणि देवी पुष्पभार गन्धलोभी मिलिन्दनादिदवृक्ष कोडरेभ्यपदन्ती सर्वतो वनं सुरभी चकार तत्पानमदविह्वलकमल विशाल ताम्राक्षो मकर ध्वजावेश चलधुर्याङ्गभङ्गो विहारखेद प्रस्वेधाम्बु कर्णैर्गलगण्ढस्थल पत्रभङ्गो गजेन्द्र गदिर्गजेन्द्र शुण्ड दण्ड समदोर्दण्डमण्डिदो गजीभिर्गजराजेन्द्र युवोन्मत्तसिंहासने न्यस्तहलो मुसलपाणिकोडीं दु पूर्णमण्डलसङ्काश्य प्रोगमद्रत्नमञ्जीर प्रचल नूपुर प्रक्वणत्कनकिङ्गिणीभि कङ्कणस्पुर पुरडहारश्रीकण्डाङ्गुलीय शिरो मणिभिप्रविडम्बिनीकृद सर्पिणी श्याम वेणी कुन्तललललित गन्धस्थलपत्रा वलिभिसुन्दरीभिर्भगवान् भुवनेश्वरो विभ्राजमानो विरराज अथ चरेमे अधः कूलकान्तारपर्यटनविहार परिश्रमोऽद्य स्वेद बिन्दुव्याप्तमुकारविन्दस्नानार्थम् जलक्रीडार्थम् यमुनाम् दूरात्स आजुहाव तदस्त्वना गताम् तडिनीम् हलाग्रेण कुपिदो विजकर्षयिदिहो वच अद्य मामः पज्ञाय नायासि मया हूता विमुसलेन त्वां कामचारिणीं शतधानेष्य एवं निर्भर्सिदास भूरिबेदाय मुना चकिदा तत्त्वादयोः परितोवाच रामरामसङ्कर्षणं बलभद्रमहाबाहो तव परं न जाने यस्यैकस्मिन् मूर्ध्नि सर्षपवत्सर्वम्भू खण्डमण्डलं दृश्यते तस्य तव परमनुभावमजानीप्रपन्नां मा माम्भोक्तुं योग्योऽसि त्वम्बक्तवत्सलोऽसि इत्येवयाजितो बलभद्रो यमुनां तदो व्यमुञ्चत्पुनः करेणुभि करीव गोपीभिर्गोपराज्जले विजगाः पुनर्जलाद्विनिर्गत्य तडस्थाय बलभद्राय सहसाय मुना चोपायनम् नीलाम्बराणि हेमरत्नमयभूषणानि दिव्यानि च दौहवावतानि गोपी यूथाय पृथक् प्रदक, पृथक् विभज्य स्वयं नीलाम्बरे काञ्चनीम् मालाम् नवरत्नमयीम् धृत्वा महेन्द्रो वारणेन्द्र इव बलभद्रो विरेचे युद्धम् कौरवेन्द्रयादवेन्द्रस्य रमद सर्ववासन्धि कीर्निशा व्यतीता बभूवुः भगवतो बलभद्रस्य हस्तिना पुरमिव वीर्यम् सूचयति व्यद्यापि कृष्टवर्त्मन्ना यमुना वहति इमां रामशिरास कदां ह्यशृणोति श्रावयदिच च स सर्वपापपटलम् चित्वा तस्य परस्परमानन्दपदं प्रदयाति किं भूयश्रोतुमिच्छसि यदि श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे राम रासक्रीडावर्णनम् नाम नवमोऽध्यायः ओ अध्यायम् टेन् दुर्योधन उवाच भगवन्गर्गाचार्येण गोपीयूथाय कथम् दत्तम् बलभद्रपञ्चाङ्गम् तत्कृपया वददाद त्वम् सर्वज्ञोऽसि प्राग्विपाक उवाच कौरवेन्द्रयेकदा स्नादुं, स्नातुम् गर्गाचलात् व्रजमण्डलम् चा जगाम तत्रैकान्ते मरुल्लीलै जल्लितलता तरुपल्लव पुष्पगन्धमत्तमिलिन्दपुञ्जे कालिन्दीकूलकलितनिकुञ्जे श्रीरामकृष्ण ध्यानतत्परं, गर्गाचार्यं, प्रणम्य नागेन्द्रकन्यास्म इति जादिस्मरा, कोपकन्या श्रीमद्बलभद्र प्त्यर्थम् सेवनम् पप्रत्युस्तासाम् परमाम्भक्तिम् वीक्ष्य पद्धति पडलस्तोत्र कवचसहस्रनामानि गोपीयूधाय स प्रददौ किम्भूयस्त्वम् तद्ग्रहणम् कर्तुमिच्छसि दुर्योधन उवाच रामस्य पद्धतिम् ब्रूहि यथा सिद्धिम् व्रजाम्यहम् भक्तवत्सलो ब्रह्मन् गुरुदेव नमोऽस्तु ते प्राग्विपाक उवाच राममार्गस्य नियमम् शृणुपार्थिवसत्तम येन प्रसन्नो भवति बलभद्रो महाप्रभुः सहस्रवदनो देवो भगवान् भुवनेश्वरः न दानैर्न च तीर्थैश्च भक्त्या लभ्यस्त्वनन्यया सत्सङ्गमेत्याशु शिक्षेद्भक्तिं वै श्रीहरेर्गुरोः सिद्धकथितो जातं यस्य वै प्रेमलक्षणम् ब्राह्मे मुहूर्ते चोधाय रामकृष्णेदि च ब्रुवन् नत्वा गुरुम्भुवम् चैव तदो भूम्याम् पदम् न्यसेद वार्युपस्पृश्य भूत्वा कुशासने हस्ता उत्संग आधाय स्वनासाग्रनिरीक्षणः ध्यायेत् परं हरिं देवं बलभद्रं सनातनं गौरं नीलाम्बरं हृद्यं वनमाला विभूषितम् एवम् ध्यानपरो नित्यम् प्रीत्यर्थम् हलिनप्रभो त्रिपालसन्ध्याकृच्छुद्धो मौनी क्रोध विवर्जितः अकामी गतलोभश्च निर्मोह सत्यवाग्भवेद द्विवारं जलपानार्थी एकभुक्तो जितेन्द्रियः क्षौमाम्बरो भूमिशायी भूत्वा पायसभो निर्जिदा एवं निर्जितषड्वर्गो भवेदेकाग्रमानसः तस्य प्रसन्नो भवति सदा सङ्कर्षणो हरिः परिपूर्णतमः साक्षात्सर्वकारणकारणः इद्धं श्रीबलभद्रस्य कथिता पद्धतिर्मया कौरवेन्द्रमहाबाहो किम्भूय श्रोतुमिच्छसि दुर्योधन उवाच मुनीन्द्र देवदेवस्य पटलं प्रभोहो मे येन सेवां करिष्यामि तत् पदाम्बुजयोः सदा प्राग्विपाक उवाच बलस्य पटलम् गुह्यम् विद्धिसिद्धिप्रदायकम् यकान्ते ब्रह्मणा दत्तम् नारदाय महात्मने प्रणवम् पूर्वमुद्धृत्य कामबीजम् ततः परम् कालिन्दीभेदनपदम् सङ्घर्षणमतः परम् चतुर्ध्यन्तम् द्वयम् कृत्वा स्वाहाम् पश्चाद्विधाय च मन्त्रराजमिमम् राजन् ब्रह्मोक्तम् षोडशाक्षरम् जपेर्लक्षम् प्रती भूत्वा सहस्राणि च षोडश इहामुत्रपराम् सिद्धिम् सम्प्राप्नो दिनसंशयः अत जप्तस्य मन्त्रस्य महापूजाम् समाचरेत द्वात्रिंशत्पत्रसंयुक्तम् कर्णी काके सरोज्ज्वलम् भव्यम् कञ्जम् पञ्चवर्णम् लिखित्वा तण्डिले शुभे तस्योपरिन्यस्य द्राजन् हेमसिंहासनम् शुभम् तस्मिन् श्रीबलदेवस्य परमार्चाम् प्रपूजयेद ॐ नमो भगवते पुरुषोत्तमाय वासुदेवाय सङ्कर्षणाय सहस्रवदनाय महानन्दाय स्वाहा अनेन मन्त्रेण शिखाबन्धनम् कृत्वा सर्वतस्तम् प्रणम्य तत् सम्मुखो भूत्वा स्वयं नदो भवेद ॐ जय जयानन्द बलभद्रकामपादकालाङ्गालिन्दीभञ्जन आविराविर्भूय मम सम्मुखो भवेदि अनेन मन्द्रेणावाहनम् कुर्या ओम नमस्तेस्तु शिरपाणे हलमुसलधर रौहिणीयेय रौहिणेय नीलाम्बररामरेवदी नी रमण नमोऽस्तु ते अनेन मन्द्रेणासन पाद्यार्घ्य स्नान मधुपर्कधूपदीपयज्ञोपवीद नैवेद्यवस्त्रभूषण पुष्पाक्षद गन्धपुष्पाक्षदपुष्पाञ्जलि निराजनादीनुपचारान् प्रकल्पयेत् ॐ विष्णवे मधुसूदनाय वामनाय त्रिविक्रमाय श्रीधराय ऋषिकेशाय पद्मनाभाय दमोदराय सङ्घर्षणाय वासुदेवाय प्रद्युम्नायानिरुद्धाय अधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः इति पादगुल्फ जानूरु कट्युदरपार्श्व पृष्टिभुजाङ्कन्धर नेत्रशिरांसि पृथक् पृथक् पूजयामीति मन्त्रेण सर्वाङ्गपूजाम् कुर्याद अधशङ्खचक्रगदापद्मासी धनुर्बाणहलमुसलकौस्तुभ वनमाला श्रीवत्सपीदाम्बरनीलाम्बर वंशीव्यत्रगरुडाङ्गतालाङ्ग रथ दारुकसुमदि कुमुद कुमुदाक्षश्रीधामादीन् कुमुदा प्रणवपूर्वेण चतुर्ध्यं तेन नमः संयुक्तेन नाम मन्त्रेण पृथक् पृथक् सम्भूज्य तथा विश्वक्सेन वेदव्यासदुर्गाविनायकदिक्पालग्रहादीन् कमले सर्वदा स्वे स्वे स्थाने सम्पूजयेत् पुनः परिसमूहनादिस्थाली पाकविधानेन वैश्वानरं सम्पूज्य पूर्वोक्तेन मूलमन्त्रेण पञ्चविंशतिसहस्राण्या हुदिर्जुहुयाद तदाष्टौ सहस्राणि द्वादशाक्षरेण तदाष्टौ सहस्राणि चतुर्व्यूह मन्द्रेण हुदिर्जुहुयाद तदोऽग्निम् प्रदक्षिणीकृत्य नमस्कृत्याचार्यम् महार्ह वस्त्र सुवर्णाभरणताम्रपात्र सवत्सगो र्णदक्षिणाभिस्सम्पूज्य तथा ब्राह्मणान् भोजनाद्यै सम्पूज्य नगरजनेभ्यो भोजनम् दत्त्वा चार्यान् प्रणमेद इद्धं बलस्य पटलानुसारेण योनुस्मरति इहमुत्र सिद्धिसमुद्रिभिः संवृदो भवति श्रीरामपटलम् गुह्यं मया ते ह्यनुवर्णिदम् सर्वसिद्धिप्रदम् राजन् किम् भूय श्रोतुमिच्छसि यदि श्रीगर्गसंहितायाम् बलभद्रखण्डे प्राग् विपाकदुर्योधनसंवादे पद्धतिपडलवर्णनम् नाम दशमोऽध्यायः ओ अध्यायम् इलेवन् दुर्योधन, इलेवन। दुर्योधन उवाच स्तोत्रम् श्रीबलदेवस्य प्राड्विपाकमहामुने वद माम् कृपया साक्षात् सर्वसिद्धिप्रदायकम् प्राड्विपाक उवाच तव राजम् तु रामस्य वेदव्यासकृतम् शुभम् सर्वसिद्धिप्रदम् राजन् श्रृणुकैवल्यदम् नृणाम् देवादिदेव भगवन्कामपाल कामपाल दे नमो नन्दाय शेषाय साक्षाद् दे नमः धरा धराय पूर्णाय स्वधाम्ने सीरपाणये सहस्रशिरसे नित्यम् नमः सङ्कर्षणाय दे रेवमणत्वम् वै बलदेवाच्युगाग्रजः हलायुगप्रलम्बघ्न पाहि माम् पुरुषोत्तम बलाय बलभद्राय य नमो नमः नीलाम्बराय गौराय रौहणेयाय दे नमः धेनुकारिर्मुष्टिकारि कूडारिर्बल्वलान्तकः रोक्म्याजिः कूपकर्णारि कुम्भाण्डारिस्त्वमेव हि कालिन्दीभेदनोऽसि त्वम् अस्ति नापुरकर्षकः ारिर्विदवेन्द्रो व्रजमण्डलमण्डनः कंसृप्रहन्दः कंस भादृप्रहन्तसि तीर्थ यात्राकरप्रभुः दुर्योधनगुरुसाक्षात् पाहि पाहि प्रभो त्वदः जय जयाच्युददेव जया परात्पर स्वयमनन्ददिगन्तगदश्रुद वरायदे मुसलिने बलिने हलिने नमः यप्पडेत् स दंस्तवनं नरः सदु परमं पद पदमाव्रजेद जगदि सर्वबलं त्वरिमरुदनं भवति तस्य धनं स्वजनं धनं यदि श्रीगर्गसंहितायाम् बलभद्रखण्डे बलभद्रस्तव राजवर्णनम् नामैकादशोऽध्यायः ओम् अध्यायम् 12. दुर्योधन उवाच गोपीभ्यकवचम् दत्तम् गर्गाचार्येण धीमदा सर्वरक्षाकरम् दिव्यम् देहि मह्यम् प्राड्विपाक उवाच स्नात्वा जले क्षौमधर कुशासनः पवित्रपाणि कृदमन्त्रमार्जनः स्मृत्वा धनत्वा बलमच्युदाग्रजम् सन्धारयेद्धर्मसमाहितो भवेद गोलोकधामाधिपति परेषु माम् पादुपवित्रकीर्तनः भूमण्डलं सर्षपवद्विलक्ष्यदे जन्मूर्ध्नि मां पादु स भूमिमण्डले रक्षदु रक्षतु सीरपाणिर्युद्धे सदा रक्षतु मां हली च दुर्गेषु चाव्यान्मुसली सदा मां वनेषु सङ्कर्षण आदिदेवः कलिन्द जा वेगहरो जलेषु नीलाम्बरो रक्षतु मां सदाग्नौ वायौ जरामो वधु के बलश्च महार्णवे नन्दवपुः सदा मां, मां वदु वधुपर्वतेषु सहस्रशीर्षाज महाविवादे रोगेषु मां रक्षतु रौहिणेयो मां कामपालो वधु वा विपत्सु कामाः सदा रक्षतु धेनुकारिः क्रोधाः सदा मां द्विविधप्रहारी लोभाः सदा रक्षतु वल्ल्वलारिर्मोहः सदा मां किल मागधारिः प्रातः सदा रक्षतु वृश्निधुर्यः प्राह्ने सदा मां मधुरापुरेन्द्रः मध्यन्दिने गोपसखप्रपादु स्वराट्पराह्णे वधुमां सदैव सायम्भणीन्द्रो वधु माम् सदैव परात्परो रक्षतु माम् प्रदोषे पूर्णे निषीदे च दुरन्तवीर्यः प्रत्युषकाले वधु माम् सदैव विदिक्षु माम् ऊर्ध्वम् सदा माम् बलभद्र आरा समन्ताद्बलदेव बलदेव हि अन्तः सदा व्यात्पुरुषोत्तमो बहिर्नागेन्द्रलीलो वधू माम् महाबलः सदान्तरात्माजवसन् हरिस्वयम् प्रपादुपूर्ण परमेश्वरो महान् देवासुराणाम् भयनाशनम् च चा, कुदाशनम् पाप विनाशनं विघ्नखटस्य विद्धिसिद्धाशनं वर्मवरं बलस्य इति श्रीगर्गसंहितायां बलभद्रखण्डे स्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ओ